श्रीमद्भागवत् महापुराणम् एकादशी स्कन्धम् अष्टविंशोऽध्यायः नात्मा वपोपार्थिवमिन्द्रियाणि देवाशसुर्वायुजलं हिताशः मनोन्नमात्रं धिषुना च सत्त्वम् अहङ्कृते खं चितिरर्थसाम्यम् समाहितैक समाहितैककरणैर्गुणात्मभि गुणो भवेन्म सुविवेक्तधां न विक्षिप्तमाणैरुतकिं न दूषणां घनैरुपेतैर्विगतैरवे किं यथा न भोभाव्यनलाम्बुभूगुणैः गतागतैर्वर्तगुणैर्न सज्जते तथा क्षणं स त्वरजस्तमोमलैरहं मते संस्थितिहेतुभीपरं तथापि सङ्गपरिवर्जनीयो गुणेषु माया रचितेषु तावत् मद्भक्तियोगेन दृढेन यावद् रजो निरस्येतमनकोषायः यथा मयोसादुचिकीर्सितोऽनुरां पुनः पुनः सन्तु दति प्ररोहन् एवं मनोपक्वकषाय कुयोगिनं वेध्यति सर्वसङ्गम् कुयोगिनो ये विहितान्तरायै मनुष्यभूतै ते दशोपशिष्टैः भूयो युजन्ति योगं न तु कर्मतन्त्रं करोति कर्म च जन्तुः केनाप्यसौ चोदित आनिपातात् न तत्र विद्वान् प्रकृतौ स्थितोऽपि निवेद्य तृष्णशुखानुभूत्या तिष्ठन्तमासीन्वित व्रजन्तम् स यान मोक्षन्तमदन्तमन्नम् स्वभावमन्यन् किमपीह मानवम् आत्मानमात्म समतेन वेद यदि स्म पश्यम् पश्यत्य सदिन्द्रियार्थम् नानानुमानेन ना विरुद्धमन्यत न ना मन्यते वस्तुतया मनीषीष्वाप्तं यथोत्थायतिरोदधानं पर्वं गृहीतं गुणकर्मचित्रम् अज्ञानमात्यन्यविक्तसङ्गत्पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा यथा हि भानो हृदयो निक्षुणचक्षुषाम् कमो निहल्यान्न तु सद्विधत्ते देवं समीक्षान् पुणसति मे हल्यात्तमिश्रं पुरुषस्य बुद्धि एष स्वयं ज्योतिरजो प्रमेयो महानुभूति सकलानुभूति देको द्वितीयो वचसां विरामे येने सिता वाग्रन्ति ते तावानात्मसम्मोहो यद्विकल्पस्तु केवले आत्मन्यते स्वमात्मानम् अवलम्बो न यस्य हि यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितं व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनां योगिनो पक्वयोगस्य यञ्जतः काय उपसर्गैर्विहन्येत त्रत्रायं विहितो विधि योगधारणया काशीन् आसनैर्धारणान्वितये तपो मन्त्रौषधै काशीन् उपसर्गान्विनिर्दहेत् काश्चिन्ममानुध्यानेन नामसङ्कर्तनादिभिः योगीश्वरानुवृत्त्या वा हन्यादशुभदाच्छनये कैचिद्देहमिमं धीरा सुकल्पं वयसे स्थिरम् विधाय विविधोपाये अथ युज्यन्ति सिद्धये न हि अन्तवत्या शरीरस्य फलस्यैव वनस्पते योगं निषेवतो नित्यं कायश्चेत् कल्पतामि यात् तत्सध्यान्न मतिमानयोगमुस्तेज मद्भरः योगचर्यामि मां योगी विचरन्मदपाश्रयः नान्तरायैर्विहन्येत निःस्पृह श्वसुखान् भू इति श्रीमद्भागवते महापुराणे पारमहंसां सहितायाम् एकादश स्कन्धे अष्टाविंशोऽध्यायः